स्य यज्ञरुद्धयस्य हविरतिरिच्य देवोर्यो देवोदिविषद्धरित्या बृहस्पतिना दैवाश्च प्रजापतिनादिज्ञस्य व्यर्थमशिवपति रक्षाकुम् शिवानेतत्पशुम् सजन्तैर्यजेखदेवत्याब्धो भूयान् भवस्यास्त्रे हरितो गर्भयित्याह देवत्रै वैनाहङ्गमयति रक्षतामहत्यावर्तनभर्तयत्याह ब्रह्मणे वैनमावर्तय दिवित्याह यथा देवेन्दुप्सो विश्वत्याः प्रजा वेपदप्रजयैवैनं पशुभिः समर्भयतिमं वैयस्य व्यर्थं गच्छति पृथिवीपदेर्थं तद्यङ्गशमने हेभ्यो पृथिवे च नयेभ्या हत्या वा पृथिवेभ्यां चभ्यभ्यञ्चाचरिक्तम् चाल्यासो देवेण दिलद्वेजयेभ्यन्नावजोरालभ्रश्चनावद्ये पुरस्ताण् पुरस्ताद्पानो यावानेवस्तस्यावद्य विष्णवेषु विष्टादिन्ये यज्ञस्यातिरिक्त रेण भोमायापुष्टद्यष्टोऽतिरिक्त एवातिरिक्तं दधात्यतिरिक्तस्य शान्त्याष्टाद्भिरण्यं दक्षिणाष्टाव्यवमः भिष्ठितम् भवत्येव पशुस्तमात्मावरुन्धे यस्यैायज्ञ प्रायश्चित्यक्रियत विश्वावधीयाम् भवति आवायो भूषशुचि उपनः सहस्रन्ते नियुतो विश्वमान उपोगे अन्धो मद्यमयामि यस्य देवदधिषेपोः मपेयम् आगोत्येत्त्वा कामायत्त्वा सपथेत्त्वा गिडाते पुनः प्रजापतये स्वाहा गिक्षिडाते प्राणम् भागवेत् स्वाहा गक्किटाते चक्षः सौर्याय स्वाहा गिक्किटाते स्वा त्वम् जावापृथिवेगस्वाहा गिक्किटाते वाचकम् सरस्पत्ये स्वाहा त्वम् तुलीया वशी वशासि सगर्गत्वा मनसागर्भाषय मधात्वम् वशिने गच्छदेवान्तः सन्त यजमानस्य कामाः अजा पृथिव्यागेक्षमपरेष्ठस्परिमिते बृहद्भाः तन्तजोगुष्पदः पथोरक्षधिराकृतान् अनुर्बणम् वयदजोगुभामपोमनर्भव जनजाते व्यञ्जनम् मनसो हवेरि प्रजापतेर्पर्णो गात्राणान्ते गात्रभाजो भूयास्म े सहास्तान्ते वागव्यभात्ते गर्भमशान्तरम् स्वामप्राजनयदग्निरग्रसरसयम् प्रजापतिराष्टाकपालमपश्यक्तम् निरवभत्ते नैवैनामग्नेरधेन तस्मादप्यञ्जदेवत्यामालभमालाज्ञेयमष्टाकपालम् पुरस्तान् निर्भवेरग्ने देवैनामधिनिष्क्रीयालभते यद्वागर्व्यभात्तस्माः ्या यदि मे गर्भमदधाथ तस्माद्या वापृथव्या यत् सोमप्राजनैर्गिरग्रतनध तस्मादग्ने सोमीराय भागवदत्तस्मा सारस्वती यत् प्रजापतिरग्ने तस्मात् प्राजापत्या सावानेकासंवदे भवत्या यद्या मालभेन भूति नामो भायम् वै क्षेपिष्ठा देव यमेव स्पेन भागधेगेनोपधापति देवी गमयदिद्या वा पृथिव्या मालभेदकृषमाणः प्रतिष्ठा कामो दिवदेवास्मैपद्यन्यो वरुषदिव्यस्यामोषधयो लोहन्ति समर्धगमस्य सस्यं भवत्यज्ञे सोम्य मालभेदयः कामयेतान्नवानं श्वरो वाचोपदितो वा चन्दवदेत्वारस्पतिभागे येनोपधावस्मिन् वाचन्दति प्राजापत्या मानभेदयः कामगेतानभिजितमभिजयेन प्रजापतिः सर्वा देवता देवताभिरेवानभिजितमभिजयति वा योपाकरोति वायो देवे नाम वरुध्यालभदागो त्याह यथा यजुरेवेतत्किक्किटाकारं जुहोति किक्किटाकारण्याः पदन्ति यत्किक्किटाकारं जुहोति ग्राम्याणां क्रियमाणे जुहोति जीवन्तेभं लोकङ्कमयदित्वं तु वीरावशिने वशादेत्याह देवत्रैवैनाङ्गण सत्याः सन्त यजमानस्य कामानित्या हैषवे कामो यजमानस्य यदनार्थमुदं गच्छति तस्मादेव माहासुरयिष्ठेत्याहैष्वेवैना प्रतिष्ठा वयति जीविते बृहद्भात्याः सुवर्गदेवास्मै लोके ज्योतिप्रधारितन्वन्त हेमानेवास्मै लोकाञ्ज्योतिष्पदो मपुत्याहय देवैर्मेतस्यैवैशान्तर्मवजनगादे व्यञ्जनमित्याह मानव्यो वये प्रजास्तादेवाध्या कुरुते मनसो हविरत्याहस्त्वगाकृते गात्रान्ते गात्रभागो भोजस्मेत्याहाैताैवानेतस्यागेकमेवादेव यदा यामभ्यो भवनध्वायामभ्यश्चादत्सु वा प्रवेदरे सर्वाम् प्राष्टीयाग्रदक्षप्रवेशये व्यग्रवेशम् कुर्यात् सर्वामेव प्राष्टीगारिन्द्रियमेवात्मन्धत्तेषा वा एषात् प्रजानामेवावरुद्धामर्थसहस्रगाचिनागृहे नस्त एवैतगामिहम् चित्तम् चित्तिश्चाकूतम् चाकूतिश्च विज्ञानम् च विज्ञानम् च मनश्च षट्फलेश्च पूर्णमासश्च बृहच्छलसन्तरम् च प्रजापतिन्द्राय कृष्णे प्रागच्छतुग्रस्पृदाद्यतस्त्वे विधसमनमङ्गः समुग्रस्स हिहव्यसुरास्संयत्तावसान् सरेन्द्रः प्रजापतिमुपाधा भक्तस्पागेताञ्जन् प्रायच्छत्तानजुः ै देवासुराजगणयजगन्तजगानाञ्जयज्ञ दे स्पर्धमाने नैते होतव्या जगत्येवताम् प्रथना भ्यद्भूतानामधिपतिस्तमाहत्विन्द्र ज्येष्ठाना यमः पृथिव्या वायुरन्तरिक्षस्यो दिमश्चन्द्रमानक्षत्राणाम् बृहस्पद ब्रह्मणो मित्रः सत्यानाम् वरुणोपागम् समुद्रस्तोत्यानामन्नसाम्राज्यानामधिपति तन्मापद सोमवोषधीनागम् सविता प्रसवानागम् रुद्रः पशूनाम् तत्तारोपाणाम् विष्णः पर्वताम् मरुतो गणानामधिपदयस्तेवाहन्तु पितरः स्तामहास्परे तदा रामा निगमा वदा अस्मिन् ब्रह्मन्नस्मिन् क्षत्रे स्यामाशिष्यस्याम् पुरोधायामस्मिन् कर्मन्नस्याम् देवहोप्याम् देवाली देवा यद् यज्ञे कुर्वदुराकुर्वदेवादेतानभ्यातानाः गुर्वतत्त पश्यन्तानभ्यादम् वद यद्देवानाम् कर्मासीताध्युराध्यदयेन कर्मणेच्छो भव्या रुध्वा देवते न कर्मणा यत् विश्वे देवा समसनं तस्मादभ्यातानामीश्वरदेवायत् प्रजापदर्जगान् देवा अभ्याताने असुरानभ्यादन्व जगे रजयन् राष्ट्रवद्भे राष्ट्रमादलयद्देवा अभ्यादाने रसुरानभ्यादन्वदर्भ्यादानामभ्यादानत्वय्यज्जगेरजयन् तज्जगानां जय त्वय्यद्राष्ट्रपद्भिष्ट्रमादल्राष्ट्रभृतायो राष्ट्रभटन्तरो रवा अभवन् परासुराय भ्राधुर्म्यवां स्यात्सगदाञ्जुहुयाभ्यादाने रेव भ्राधर्म्यान ्रमादत्ते भवत्यात्मना परा भवति भाग्यर्गन्धर्वस्तस्य क्षरसवोर्जो नाम च इदम् ब्रह्म क्षत्रम् पालता इदम् ब्रह्म क्षत्रम् पाहास्मै स्वाहाताभ्यस्पाहातो विश्वदामासौ गन्धर्वस्तस्य मरे चरस आयुवस्व ब्रह्मस्व श्चन्द्रमागम् धर्मस्त नक्षत्राण्यो भुज्यवर्णो यज्ञो गम् धर्वस्तस्य दक्षिणाः शरदस्तव प्रजापतिर्विश्वगर्मा मनोगन् धर्वस्तस्य सामान्यो बन्धनैलो विश्वव्यधामारसो मुदा भुवनस्य परिगृहादिगज स्वाज्यालयम् कारत्वारकम् सुवेद्यकम् संवत्सरे नागस्वस्त्यम् ृत्युर्गम् धर्मस्तस्य विश्वमत्सरसो गन्धर्वस्तस्य विद्युतो खलसो ऋतो मृत्युर्गम् धर्मस्तस्य प्रजा चलसोऽ कालक्रमण काशी कावो ष्टाः सनाभुवनस्य पदे यश्च तहा इह च पुरब्रह्मणे स्मै क्षत्रायम् अयच्छ राष्ट्रगामाय हो दव्या राष्ट्रम् वेधा प्रभृतो राष्ट्रेणैवास्मै राष्ट्रमवरुन्धे राष्ट्रमेव भवत्यात्मनय हो दव्या राष्ट्रम् वेदः प्रभृतो राष्ट्रम् प्रजा राष्ट्रम् माय भो रराष्ट्रफतो राष्ट्रकंसजाता राष्ट्रेणैवास्मै राष्ट्रकंसजाता न वरुन्धे ग्रामे भवत्येवनेन भवत्येवनैवा ैता नवन्धे नवरुद्धा उपतिष्ठन्ते रसमोजस्कामस्य हो दव्यावोजो वेदवोजोजेवावोजोपरुन्धवोजस्यैव राष्ट्राभूतस्या तस्मै होदव्याघावन्तस्तरथाश्चाद्यम्भमिति राष्ट्रमेवास्मै रत्याहुतयो मा एतस्याकृयश्च राष्ट्रं न कल्पते रथस्य दक्षिणञ्चक्रम् प्रवर्पनाडीमभिजुः यादाहुते रेवास्य कल्पयति ताश्च कल्पमाना राष्ट्रमनुकल्पते सङ्ग्रामे संयते होतव्या राष्ट्रम् वैराभृतो राष्ट्रे खलु वायच्छन्ते चे सङ्ग्रामकम् संयन्त्रियस्य भोर्वस्त्य च सङ्ग्रामम् माहाद्युखयुष्मा भवत्यङ्गारादेव मित्रा नामस्तै नाम् प्रयवेष्टयन्ति य उन्माद्ये तस्मै होव्या गन्धर्वा सरसो वान्मादयन्ति य उन्माद्यत्वेते फलवे गन्धर्वा सरसो यत्रा प्रसस्तस्मै साहाताभ्यस्पाहेतुजुहो दृ नैवेयग्रोधौरुम्बराश्वः प्राक्षयिते द्मो भवत्येते वै गन्धर्वा सरसा ेवैनायणनेशमयत्तजरता प्राणानेवस्य प्रतिजप्रति योगित केन चस्तृते वैतद्वा अस्यैलिगृहीनन्दर्नतिगृहीत एवैनन्दर्नित्या जः क्रोदन्ते नवझक्रोदिपादेव सभायामुत्थानो निपुवनस्य पदय गृह्णेय प्रजापदर्वेभुवनस्य पदः प्रजापदैव स्यान्नाद्यमानत्र यदमहमुष्यामुष्यायन स्यान्नाद्यगूहरामेत्यहान्नाद्य स्याग्रस्थले वसाय ब्रह्मोदनम् चतुश्शरामम् भक्त्वा तस्मै होतव्या वष्मवेष्मस्थलं भक्ष्मसमाना गमयति चतुश्शरामो भवतिष्ठति क्षेरे भवति मेवात्मिन्नधाुद्धरदिशदत्त्वाय स भवति मे धत्वाय धत्वार आरुमेणाम् प्रास्पन्त्यदिशामेव ज्योतिषजुहोति देविकागम्बवे प्रजागा पश्छन्दागम् सुमे देविगम् श्रीव खलु वे पशुपजान्दाभिदेवः प्रजा प्रजनयरि प्रथमम् धातारम् करोति मिथिनी पृथिवीवाली जनयति प्रजास्वेव प्रजातासु कुक्वा भाजम् तथा देतारेव निपवे पशुकामश्छन्दागम् श्रिवे देविश्छन्दागम् श्रीव खलु वे पशुवश्छन्दोऽभिदेवः स्वे पशोन्वजनयति प्रथमम् धातारम् करोधिप्रैवतेन भासयत्यन्मेवा स्मा अनुमतिर्मन्यते राते राकः पृथिवीवाली जनयति पशूनेव प्रजातान् कुह्वाः प्रतिष्ठापयच्चेतारेव निर्ममे ग्रामकामश्चन्दागम् श्रीमेषे विकाश्छन्दाघुम् श्रीमखलु वै ग्रामश्चन्दाभिदेवास्मै ग्राममोरुन्ध्रे मध्यतो धातारम् रामस्य रथा एव निर्ववेद्यो गामयाभिन्दागम् जिवेदेवन्दागम् सि खलु वा नेतमभिमन्यस्य न्दागम् सि खलु वा नेतन्नोपनवन्तिगै यज्ञः पनवरे प्रथमम् धातारङ्करोति मुखले वास्मै चन्दागम् सिदधात्युपैनै यज्ञो नवत्येता एव चन्दवेदी जानश्चन्दागम् यातया मालीव खलु वा छन्दागम् सिजगी जानमुत्तमम् धातारङ्करोत्युपरिष्टादेवास्ते छन्दाकश्च यातया मान्यवरुन्ध उपैनमुत्तरो त्येता एव नेद्यं मेधानापणमेन्दागं शिवे देविकाश्छन्दागं सि खलुवानेतन्नोपनमन्त्यं मेधानोपनोस्मे छन्दागं श्रीधात्रिपेन मेधानभत्येतावेव दृक्तामश्चन्दागं शिवे देविकाश्चन्दागं सेव खलु वेर्छन्दाभिदेवास्मिन् दधाति क्षीरे भवन्ति स्विन्द्रतोधातारङ्गरोतदेवेन ग्राकाजगदेशमे भाग्युहोर्धातामषट्टालः भोक्षोदाक्षः कुहोरमाभा त्यासिनी बाले भोः न वाश्च न परिश्चन्द्रमाधाताष्टोपसभोष्टाक्षरागायत्रेकादश नृत्या एकादशाक्षरः ऋष्टद्वादशादित्या द्वादशाक्षरा जगति प्रजापदष्टातावषत्कारणे तद्वये विकाः सर्वाणि च छन्दा सर्वाश्च देवतावशत्कारस्ता य सह प्यधातस्थितीयम् निर्वभेत् तथो देवोत्तरे निर्वभेत् तथैनन्द्रप्रदहम् तथो यस्मै कामायश रूप्येतमेवाभिरुपाप्नोति आस्तोऽष्पदे प्रतिदाने यस्मान् स्वादेशो अनमेव भवानः यद्रे महे प्रतिदन्नो युगक्ष्वचन्नुपदेशम् युगुष्पदे ष्पदे शग्मगा शकुम् सदा मेधक्षेमहिरन्वगा गातुमत्याः आवह क्षेमभृतयोगेवरण् योगम् पाद उपधत्ते रातर तंजोष्ट का उपधत्तेज मानोरि येत आगम प्रादोक होेष्ट कर्ोपधत्तेत सहानजुराक्ष विराग विराजमेवाेगा कर्ोपधत्तेथो विराग भवधितस्माद्योषित्वाया तद्यज्ञ वा स्पद्यदो वाचीननुरुद्रः खलु मे भास्तोष्पदर्गदभुक्ता वा स्तोष्पदेयम् प्रजाया ुदिं जहोति तादृगे पदजलिप्तेहोति तादृगे पदुनवस्य वा स्तोष्पतिर्यज्ञस्या त्युभयमेवा करमयमग्रेलकुंशमयदेकगाजुयात्प्या मनोक्षयात्रिगाजु भक्त्वा यद्भुत आदत्यः ऋद्रङ्ग्रहान्मारोहगत्यक्षाकाङ्कसम्प्रक्षाप्य प्रयागात् यथा यज्ञादहनम्बा भातृगपदयम् अग्नेर्यो निष्वगेवैन योनौ समारोहयत्यथो खल्वा हुर्यतरम् योः समारोहो नश्चेतनस्याज्ञस्येद पुनराधेयस्यादि लिगाते अग्ने यज्ञयातनोष्टयेत्यारोहेत्यात्मन समारोहयते इदमानो वा अग्नेर्यो निष्पागमेवैन योऽन्यागम् को ृहदेह सुब्लाये सामगं नोम सोवामे कॉ वनस्पति ब्रह्म देवा शेनो गृधाधि पवित्रम्त्ते आगत्म सोक् सत्यामहे सत्यंस विद आसा वर्तमान वृतम मत पश्यन्ने यथा नो अतिक्रमस्वेभ्यो यथा गवे यथा तोकायरुद्रियम् मानस्को वेतनजयमानायुषमानो गोशुमानो अश्वषः वीराम् मानो रुद्रहामितोऽवधेयः विश्वम् तो नवधा विधेमते बुलप्रजोनवयो रक्षमाणावावदतो अभ्युजस्येवघोषाः हरिभ्रजो नोर्मजो मदन्तो बृहस्पतिमभ्यर्गानावन्सैलिपदखिभर्वावदभ्यरस्पन्मयानिनः बृहस्पतिरभिगणिकदर्गादुलप्रास्तोदृच्छ विद्वागायिरेन्द्रमादित्वानयुम् सदासहम् वरिष्ठमूतये भरा प्रसदाहिषे पुरुहो दशत्रो ज्येष्ठस्ते सुष्मैह राजहस्तु इन्द्राभरदक्षिणे नामसो निपतिः सिन्धू नामसि रमतीनाम् त्वकं श्रुतस्य पीतये सद्यो वृद्धो अजायथाः इन्द्रज्ञेष्ठ्याय सुक्रतो भव त्वमिन्द्रब्रह्मणा महान्भवो विश्वे रसभेषु विश्वस्मिन् भरे ज्येष्ठश्च मन्त्रो विश्वजैषणे मित्रस्य जैषणे दर्शवो देवस्य धानम् सत्यम् चित्रश्रवस्तमम् मित्रो जनाने गातयति प्रधानन् मित्रोदाले पुद्याम् मित्रः कृष्टेर्ण मिढाभितष्टे सत्याय हव्यम् कृतवद्विधेम अस्तो तो तो न वर्तो अस्तु प्रयस्मानि यस्त आदित्यशिक्षे म्रतेन न हन्यते न जीयते त्वेन वगम्भो अस्मात्यन्तितो न दूरात् यत्सिद्धिते विश्व यथा प्रदेव वरुणम् अजित्ते यत्तमधर्मायमानस्तस्मादेन सो देवदीरिशः हितवा सोऽयद्रपूर्णदेवी यद्माधा सत्यमुदयन्न विद्मा सर्वा काविष्येव देवाधा देयस्यापमरणप्रियासः